यम् मे वर्णो मणि वृषाः तेनारभस्वत्वम् शत्रून् प्रवेणी हितुरस्य नः प्रयीणाञ्छिणी शक्प्रवृणारभस्वमणिस्ते अस्तु पुररेता पुरस्तात् अवापरयन्तवरणेन देवाभ्याचारमसूराणा स्वस्वाः अयम् अनिर्वारणो विश्वभेषसहस्राक्षो हरितो हिरण्यराः स दे शत्रो न धरान् वादयाति पूर्वस्त्रान् न ब्रुहि त्वाद्विषन्ति अयम् ते कृत्याम् वितताम् सर्वस्मात् पापाद्वारणो वरणो वाहारयाता अयम् देवो वनस्पतिः यक्ष्मोजोऽस्मिन्नाविष्टस्तमो देवरम् स्वप्नम् स्वप्नाय देवश्यासि पापम् मृगस्मृतिम् यदि वादचष्टा परिक्षवाच्छगुणे पापवादादयम् मणिर्वारणो वहरयिष्यते त्या विचाराजतोभयादय मृत्योरोदीयसो वधायिष्यते किन्मे मातायन्मे पिता भ्रातरोच्च मे स्वायनेनश्च गृमा वयम् तरो नो वारयिष्यतेऽयम् देवो वनस्पतिः वर्णेन प्रव्यजिता भ्रातर्या मे असोक्तम् न जोगुस्थेयम् यथमन्तवाः अरिष्टोऽहमरिष्टगुरायुष्मान् सर्वपूरुषः तम् मायम् वर्णो मणिष्मी पातु दिशोदीशः अयम् मे वर्णगुरशिराजाः देवो वनस्पतीः समे शत्रोन्यवाः गतामिन्द्रो दस्योः इमम् बेभन् विवर्णमायुष्मान् शतशारदः स्वमेराष्टम् च क्षत्रम् च पशो रोजश्च मे नभत् यथा वातो वनस्पतीन् वृक्षान् वरत्योजसा एवासपद्माम् विपूर्वान् जाता उदान् वरनस्त्वाभिरक्षतो यथा वातश्चाग्निश्च वृक्षान् सातो वनस्पतेन ये वा सभद्रान् साहिपोर्वाम् जाता उताम् वरणस्त्वाभिरक्षतो यदावातेन प्रक्षीणा वृक्षाशेर्पिता ये वा सभद्रांस्त्वम्पजवोर्वाम् जाता उतावराम् वरणस्त्वाभिरक्षतो ताम् त्वम् रक्षिन्भिवरण पुरा दृष्टात् पुरा योषः शुचित्सम् येजाः यथा सूर्यो हतिभाति यथास्मिन् तेजाहीतम् एवामेवरणो वणिकीर्तिम् भोगिम् निरक्षतु तेजसा मासमुक्षतु यश सा समानत्वमा यथा यशश्चन्द्रमस्याधिक्ये च निचक्षासि रणो वणिक्येर्त्यम् भोजम् नियच्छतु तेजसा वासमुक्षदय चासमानक्त्वा यथा इष पृथिव्याम् यथास्मिन् चातमे रथि एवामे वर्णो वणिःक्येर्तिम् भोजम् निगच्छतु तेजसा वासमुक्षदय च जातमानक्त्वा यथा इलः कन्यायाम् यथास्मिन् संवृते रथे ये वा मे वर्णो मणिःकीर्तिम् भोजिम् नियच्छतु ते जमासमोक्षतयश सा समानक्तुमा यथायष स्वमपि वर्णो मणिः कीर्तिम् भोजिम् नियच्छतु तेन सा मासमोक्षदयश सा समानक्तुमा मेः वरणो मणिःकीर्तिम् भोजम् नियच्छसते जसा भासमुक्षतु यश सा समानक्त्वा यथा यशो यजमाने यथास्तिम् जज्ञाहीतम् एवामेः वर्णो मणिःकीर्तिम् भोजम् नियच्छस ते जय सा भासमुक्षतु यश सा समानक्त्वा यथाय प्रजापदतो रणो मिलिकीर्तिम् भोजम् नियच्छतु ते च सा वासमोक्षतु यश सा समानक्त्वा यथा देवेश्वमृतम् यथैषु सत्यमारीतम् एवामे पर्णो मिलिकीर्तिम् भोजम् निगच्छतु ते च सा वासमोक्षत सा समानक्तुमा इन्द्रस्य प्रथमो रथो देवा रामपरो रथो वरुणस्य तृतीया अहीनाम परमारसुमाहारोचितस्य वार पुरुषस्य वाराः वरस्य बन्धूरम् अवश्वेतपदाय हिपोर्वेण व्यापारेण च उद पृतमेव अरम्भुषो निमज्जोन्मध्यपुरप्रवीर उद पृथमेवरसम् विषम् वा रुग्रहम् वैद्वो हन्दिकरणीयम् वैद्वस्मित्र उतासिताम् वैद्वो न्याश्रियः सम्बिभेदप्रदात्माः वैद्वप्रेहि प्रथयुत्वा वयमेमसि अहेयम्यस्य तात्त्वेन स्मा वयमेमसि ्यर्वतः पदाहिज्ञो आदिनीवतः सय्य तन्न विश्वद्व्यात् तन्न संय अस्मिन् चेद्वे द्वामहे श्री च यांस्तरसा अरसा सिहाह जालेहम् घनेन हन्निमिष्टिकर्मयम् गन्धेनागतम् अहाश्वस्तेदम्भरेणोः स्वजस्य च इन्द्रो मेहीपघायन्तम् पयेद्वो आनन्दयत वैद्वस्य मन्महे वयम् स्थिरस्य स्थिरः नः इमे पश्चापृतावप्रतीता सत् नष्टा सर्वो नष्टवेषा हता इन्द्रेण वज्रिणाः गजानेन्द्रो जग्निमा हतास्तिरष्टिराजयो निष्टा सप्रदाम् करिकृतम् चित्तम् हिरण्यैः आयमाजन्यवाहापराजितः सवेश्वजस्य भजोऽनुवृष्टे कस्यता इन्द्रोमेहि वरन्धयन् मित्रश्च वरुणश्च वातापर्जन्योभा इन्द्रोमेहि वरन्दयप्रदाः कुञ्चपदात्मन् स्वयम् निरश्विराजम् कसन्निलम् दशो रजन् इन्द्रो जघानप्रथमम् जलितार महेतः तेषाम् उदृश्यमाणानाम् कश्चित् तेषाम् संहितेषान्यग्रभम् पौन्यष्टजैवर्मध्यम् परेत्यव्यजमहेर्विषम् करीनाम् सर्वेषाम् विषम्बराः महन्तु सिन्धराः अतः स्थिरश्चिराजयो निपिष्टा सृदाः कवः ओषधीलनामहम् मृण उर्वरीरिवसाधुयाम्यर्वीरिवारे निनयितु ते विषम् यदग्नौ सूर्यरे विषम् वैथिव्यावौषधीषो य कान्दाविषम् कलग्नकम् ये द्वैतूते विषाम् एनग् वो ओषधीराजीहीनाम् ये हस्त विद्युत आ बभूवो एषा हम् जातानी बहुधा माम् वितेभ्यः सर्वेभ्यो न मनसा विधेम तौ दीनामासिकन्या अधः पदे न ते अधा विषयदोषम् रङ्गाः रङ्गात्मच्यामयहृदयम् परीवर्जय अधः विषस्ययत्तेजोः वाचीनम् ददेहेतुते आरे अहोद्विषमारोद्विषये विषम प्रागपि अग्निर्विषमहे निरथा निरयीलम् वर्गाद्विषमहीनवृता इन्द्रस्यौदस्थेन्द्रस्य सहस्तेन्द्रस्य परं स्थेन्द्रस्य वीर्या आंस्थेन्द्रस्य नं स्था जिष्ठरेगाः ब्रह्मयोगरेर्वो युन इन्द्रस्यौगस्थेन्द्रस्य सहस्थेन्द्रश्च परं सेन्द्रस्य वीर्या आंस्थेन्द्रस्य नं स्था जिष्ठरेगाः यक्षत्रयोगरे वो युनी इन्द्रस्यौजस्थेन्द्रश्च त हस्तेन्द्रस्य बलन्तेन्द्रस्य वीर्या आं स्थेन्द्रस्तम् न स्थ विष्णवे योगायेन्द्रयोगैरभो योगाय भोमयोगैरवोभो जनज्मे इन्द्रस्यौजष्ठेन्द्रस्य सहस्तेन्द्रस्य वरहंस्तेन्द्रस्य वेर्या आंस्तेन्द्रस्य नंस्ता जिष्णवे योगायाक्षुयोगैरवोजनद्वे इन्द्रस्य जस्थेन्द्रस्य सहस्तेन्द्रश्च वरहंस्तेन्द्रस्य वेरिया आंस्तेन्द्रस्य नम्रंस्त जिष्णवे योगाः ज्वारि मा भूतान्युपतिष्ठन्तु युक्ताम आपस्थ अग्नेर्भागस्थ अपाम् शुक्रमाः बो देवीर्वध्योः अस्मासु धत्तः प्रजापदेर्वोधाम्नास्मै लोकाय सादरे इन्द्रस्य भागस्थ अपाम् शुक्रमाः बो देवीर्वध्योः अस्मासु धत्तः प्रजापदेर्वोधाम् आस्मै लोकाय सादरे सोमस्य भागस्थ अवाम् शुक्रमाः बो देवी अर्वच्योः अस्मासु धत्र प्रजापदेर्वोधाम्नास्मै लोकाय सादरे वरुणस्य भागस्थ अवाम् शुक्रमाः बोधेवी अर्वच्योः अस्मासु धत्र प्रजापतेर्वोधाम्नास्मै लोकाय सादरे निद्रावरुणयोर्भागस्थ अवाम् शुक्रवा बो देवीर्वजो अस्मासु धत्तः प्रजापदेर्वोधाम् अस्मै लोकाय सादरे यमस्य भागस्थ अवाम् शुक्रमाः पो देवीर्वजो अस्मासु धत्तः प्रजापदेर्वोधाम् अस्मै लोकाय सादरे वित्रेणाम् भागस्थ अवाम् शुक्रमा वो देवेर्वचोः अस्मासु धत्त्र प्रजापतेर्वोधाम्नास्मै लोकाय सादरे देवस्य सवितुर्भागश्च अवाम् शुक्रमापो देवेर्वजोः अस्मासु धत्त्र प्रजापदेर्वोधाम्नास्मै लोकाय सादरे यो व आवोपाम् भागो ओ स्वा आन्तर्यतामाभ्य तेन तमभ्यजावो योस्मान् वेष्ठिरम् वयम् विष्मः तं माधेयम् तम् स्त्रीहिनेन ब्राह्मणानेन कर्मणानया वेण्या यो नोपाल जष्यो देवाय जानः इदम् तमदिरजाविधम्माभ्यवी तेन तमभ्यदिरजा भोज वेष्टियम् वयम् दृष्मः तम्बेदम् तम् स्त्री यानेन ब्रह्मणेन कर्मणा नेण्या योगो असो स्वान्तर्याजशो देवाय जानः इदम् तमति सदामितम् माभ्यवक्षे तेन तमभ्यति सदामः तम् तम् स्त्री गोपा मृषभोशो देव्यवक्षे तेन तम् वयम् विश्वः तम् स्त्रीशीलेन ब्राह्मणानेन कर्मणानयाङ्गीरन्य स्वान्तर्यो देवयजानः इदन्तमतिथजावितम् माभ्यवयोमः तम् स्त्री ब्रह्मणानेन यो वोपायजनः इदम् तमति सदामिदम् माभ्यमालिक्षे तेन वेष्ण्यम् मा वयम् विष्मः तम् वधेयम् तम् स्त्रीः जामेन ब्रह्मणानेन ने कर्मणा नेण्या ये रामग्नो स्वान्तर्यवायजना इदन्तानतिलजामितान् माभ्यवलिक्षे भ्यो योऽस्माम् वेष्टियम् वयम् विश्वञ्च आपो मातस्मात् सर्वस्माद्वरिता त्वान्तम् भाजः समुद्रम् अप्रकीणो विश्वानयो निपीतन अरिष्टाः सर्वमामद अरिप्रापो अपरिप्रभस्मद प्रास्मदेनोदितम् सुप्रदीता विष्णाक्रमोदितवत्नरा पृथिवीसंहितोग्निरेजाः पृथिवीपरविक्रमेणम् पृथिव्यास्तम् निर्भजाभोदो अस्मान् दक्षिणम् वयम् विष्मः समाजीः वेत्तम् प्राणो जहादो विष्णोक्रवादनवत्मनः वायुदेजाः अन्तरिक्षमनुविक्रमेणमन्तरिक्षात्तम् विव्रजभोजोस्मान् वेष्टियम् वयम् विष्मः समाजीः वेत्तम् प्राणो जहादो विष्णोक्रमादलवत्नः द्यौरम् निरसूर्यजाः दिवविक्रमेहम् दिभस्तम् निर्भजावोजो अस्माम् वेष्ट्यम् वयम् विष्मः समाजिः वेत्तम् प्राणो जयातो विष्णोक्रमो जलपत्रिक्षम् शितो मनस्तेजाः दिशोनुविक्रमेहम् दिग्भस्तम् निर्भजावोजो अस्मान् वैष्ट्यम् वयम् विष्मः समाजिः वेत्तम् प्राणोजयात कृष्णोक्तवो दलपत्नशांसितोपात आशाभ्रस्तम् आशा व्रजामोजोऽस्मान् वैष्ट्यम् वयम् विष्मः समाजे वित्तम् प्राणो जहातो विष्णोक्रमो जलपत्नः शंसितः सामतेजाः विचोद विक्रमेह विभ्रस्तम् निर्भजामोदस्मान् वेष्ट्यम् वयम् विष्मः समाजे वेत्तम् प्राणो जहातु विष्मा प्रमोदम् यतो ब्रह्म देदाः यज्ञमनुविक्रमेहम् यज्ञात्तम् निर्भजामोदस्मान् वेष्ट्यम् वयम् विष्मः समाजे वेत्तम् प्राणो जहातु विष्णोक्रमो जनपत्नः औषधी संसितः सोमतेजाः ओषधीरनुविक्रमेह ओषधीभ्यस्तम् निम्भ्रजामोजस्मान् वेष्टिरम् वरम् विष्मः समाधिः वेत्तम् प्राणो जष्णोक्रमो जनपत्नः सुसंसितो वरुणतेजाः अपोर्विक्रमेह मध्यस्तम् निम्भ्रजामोज वेष्टिजम् वयम् विष्मः समानेः वेत्तम् प्राणो जहादो कृष्णोक्रमो जलपद्म कृषिसंसिन्नः कृषिमनुविक्रमेहम् कृष्यास्तम् निर्भज मोदोस्मान् वेष्टिजम् वयम् विष्मः समानेः वेत्तम् प्राणो जहादो मृष्णोक्रमो जलपद्म प्राणसंसितः पुरुषतेजाः प्राणोऽष्टमेहम्भोजस्मान् वेष्ट्यम् वयम् विश्वः समाजिः तम् प्राणो जहातोस्माकिन्नमस्माकमभ्यष्टाम् विश्वापृतनाराणि इरमहामुष्यायणस्यामुष्यात् पुत्रस्य वचेन प्राणमालम् निवेत्तयामेदमे न राज्यम् वादयामि सोऽयस्यावृतमम्बावर्ते लक्षीणामम् भावृतम् सा सामे ब्राह्मणवर्चो ज्योतिष्पदे अभ्यावर्ते े द्रवीणै यच्छन्तु तावे ब्राह्मणवचलसम् सप्तर्ही अभ्यावर्ते देवे द्रवीणै यच्छन्तु देवे ब्राह्मणवचलम् ब्रह्माभ्यावर्ते तन्मे द्रवीणै यच्छन्तु तन्मे ब्राह्मणवर्चलसन् ब्राह्मणा अभ्यावर्ते देवे द्रवीणै यच्छन्तु देवे यम् वयम् मृगदामयम् वरैस्त्रेण वामहैरात्रे वरमेष्टिनो ब्रह्मणाभिः पदावताम् वैश्वानस्य समाधादधि इयम् तम् स्वात्मा भूतिः समिद्देवी सहीयसी राज्ञो वरोणस्य बन्धो हि सोमहावष्यायमोष्या पुत्रमन्ने प्राणेऽवधारे अन्नम् भुवस्पदा क्षीयनि पृथिवी मनो तस्य नस्तम् भो वस्पदे संव्रेच्छ प्रजापते अवो दिव्याजायषम् रते देशमृक्ष्महि पयः स्वालग्नागमन्तम् मासम् श्रीजमर्जता े मञ्च साधुम् प्रजयासमायुष विद्यम् मे अस्य देवायुन्द्रो विद्यात् सहृभे दे यदग्ने ह्य मे तु समाहतो यद्वाच स्पृष्टम् जनयम् तदेव मन्योर्मनस्रव्या राजाने धार पराः शिणेः तपसायादुधानात् पराः ज्ञेलक्षोहरशासिणीः परार्चिषाभोरदेवाञ्छेः पराः सुदृपशोशोचदर्षिणीः अवामस्मै वज्रम्प्रहरामितदुर्भृष्टिम् शैर्णविद्याय विद्वान सो अस्याम् प्रसेणातु पराजेयोर्धातव्यस्य दुर्भातस्य अपि निष्ठाम्यो जयसामय्यमयम् मणिष्ठानाम् जातः करिष्यति पूर्णो मन्थेन मागवेन परावदेक्षास्ते आपस्पादस्माजीलाः पुनम् तु सुश्रुतिम् हिरण्यश्रम् मणिः श्रद्धाम् यज्ञम् महोदधत गृहे वा सनोतिथिः तस्मै घृतम् सुराम् मद्वन्ना वन्दम् क्षदामहे स्वतिरेऽप्य श्रेयश्रेयश्चिकित्सतु भूयो भूयश्वस्वो यमबद्ध्राद् बृहस्पतिर्मणिम् बालम् घृतष्टुतमुग्रम् खदिरमोजसे तवग्निप्रत्यमुञ्चततोऽस्मै दुभाज्यम् भूयो स्वस्ते धस्तम् देहतो जहि यमवध्राद् बृहस्पतिर्मणिम् बालम् घृतष्टुतमुग्रम् खदिरमोजसे सोऽस्मै वदमिन्दो हे भूयोः भूयः स्वस्ते रक्तम् द्वेषतो जहि यमवद्भ्रादृहत्वजर्मणितमुखज्युरमोजसे रांसोभप्रत्ययमुञ्चतमहे श्रोत्राय चक्षसे सोऽस्मै वर्च विद्दूहे भूयोः भूयः यमभद्रात् बृहस्पतिर्मणिम् बालम् घृतश्चुतमुद्रङ्खधिरमोजसे प्रत्यमुञ्जले सोऽस्मै भूरिमिद्दूरे भूयो जलहि यमभद्रात् बृहस्पतिर्मणिम् बालम् घृतश्चुतमुद्रङ्खधिरमोजसे तम् बृहच्छन्दमाः मणिमधूराम् पुरो जरानवारा सो अस्मै श्रियन् दुहे भूयो भूय सस्वस्ते रक्तम् वेषतो जहि यमभ्रात् बृहस्वतिर्वादाय मणिपाशवे सोऽस्मै वाजिनम् दुहे भूयो भूय स्वस्ते रक्तम् वेषतो जहि यमभ्रात् बृहस्वचर्वादाय मणिपाशरे माम् मणिनाः दृशिमस्मिनाः अभिरक्षतः सभिषर्भ्याह्मो दुरे भोजो भोजः सर्श्वस्ते रक्तम् देशतो जहि यमवध्रादृहस्त्वताय मणिमासवे मणिम् दे धेन सो अस्मै सोणताम् दुरे भोजो भोजस्ते रक्तम् देशतो जहि यमवध्रादृहस्वशर्वाताय मणिमाशवे राम्यक्षीताः साभ्यो मृतविद्रोहे भूयो भूयश्वस्वस्ते रक्तम् देशतो जयहि यमाद्रादृहस्पतिर्वादाय मणिपाशते तम् राजावरुणो मणिम् प्रत्ययमुञ्चत शम्भुवम् सोवारसै सत्यविद्रोहे भूयो भूजः स्वस्वस्ते यममध्राद् बृहस्त्वजर्वादाय मणिपाशले तम् देवादिभृतो मणिम् सर्वाल्लोकान्विता चेभ्यो निजिन्दूहे भूयोशास्त्रेण देशतो जय हि यममध्राद्बृहस्त्वजर्वादाय मणिपाषले तमिमम् देवता मणिम् प्रत्युञ्चन्त शम्भुवम् साभ्यो विश्वविद्दोहे भूयो भूयश्वस्तेरस्तम् वीषतो देहितवस्तमभद्रतास्तमाबद्ध संवत्सरस्तम् बध्वा सर्वम् भूतम् विलक्षति अन्तर्देशावद्रत प्रतिशस्तमभद्रता प्रजाप्रतिशष्टो मणिर्दीढतो मेधरान् अगः अङ्गीरसोदस्योनाम् रक्तम् नीषतो जहि दन्धाता प्रत्ययमुञ्चदशभूतम् जय कल्पयत तेन रक्तम् नीषतो जहि यमबद्धात् बृहस्पतिर्देवेभ्यो असुरक्षितम् समायम् मणिरागवद्रेण यमवद्धात् बृहस्पतिर्देवेभ्यो असुरक्षितम् समाजम् मणिराग वत्सह गोभि प्रजासः यमवत् बृहस्पनिर्देवेभ्यो असौ रक्षितिम् समाजम् मणिराग वत्सहमाभ्याह्महसा भूत्या सह यमभ्रात् बृहस्पनिर्देवेभ्यो असौ रक्षितिम् समाजम् मणिराग मन्मथोद्धृतस्य धार जाकेयालेन मणिः सह यमवध्रादृहस्पतिर्देवेद्वासो रक्षिण्यम् समायम् मणिरागमतोपरसा सहद्रवीणेन श्रेया सह यमवध्रादृस्पतिर्देवेद्वासो रक्षिण्यम् समायम् मणिरागमत्रेजसात्मिश्याः सह यश सा कीत्याः सह समाजम् मणिरागमत्सर्वाः सह तमिवम् देवताः मणिम् मह्यम् ददतु पृष्टये अभिमङ्क्षत्रवर्धनम् सपत्रनम्भरणम् मणिम् ब्रह्मणाटे चाधः प्रतीमम् चामि मे शिवम् असपत्रः सपत्नः सपत्रान्मेधराम् मदः पुत्रम् विषयतो वामजम् मणिष्टे यस्य लोकानि मेत्र पयोः दुग्धमुपासते समाजमधीरोहतु मणिश्यैष्ठ्याः रमोद्धरतः यम् देवः वितरोः मनुष्या उपजीवन्त्य समाजमधीरोहतु मणिश्यैष्ठ्याः रमोद्धरतः यथा वीरमुर्वरायाम् कृष्णे बाले नरोहति एवामयि प्रजापशवोन्न मन्नम् विरोहतो यस्मैः <तार्णान्या> त्वारिज्यवर्धनमणेः प्रत्यवोचम् शिवम् तन्मसर्वदक्षिणमणे श्रेष्ठ्याय जिम्बता एतविद्धम् समाहेतम् जुषाणो अग्ने प्रदेहर्ये तस्मिन् विदेव सुम् स्वस्ति प्रजाम् समिद्धे जादवे रतिब्रह्मण कस्मिन्नङ्गे तपो अस्याभितिष्ठधिकस्मिन्नङ्गे न तपश्चाध्याहीतम् व श्रद्धास्य तिष्ठधिकस्मिन्नङ्गे सत्यमस्य प्रतिष्ठितम् कस्मादङ्गाद्य अग्निरस्य कस्मादङ्गाद्विभेदे चन्दवा महस्कुम्भस्य अभिमानोऽम् कस्मिन्नङ्गे तिष्ठति भूवीरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्ष कस्मिन्नङ्गे तिष्ठत्याहिताद्यौ कस्मिन्नङ्गे तिष्ठत्युत्तरम् दिवः वा प्रेप्सम् दीप्यत गोर्भोवा प्रेत्सन् मम क्वादाः निवादाः संवत्सरेण लाः यत्र चन्द्रो यत्रा स्तम्भन्तम् रोहि गर्वस्मिदेवदः क्वाप्रेत्सन्दीरुमतीरो संविधाने यत्र प्रेत्सन्दीरभिजन्द्रापस्तम्भन्तम् रोहि ग धर्मस्मि देवदः यस्मिन् स्तब्धा प्रजापाचकान् सर्वाम् अधार सम्बन्धम् रोहि कदामस्मि देवतः यत्परमा वै यच्च मध्यमम् प्रजापादिश्वन् कियदा स्तम्भ प्रवीवेशभूता कियद्भवा कियदा स्तम्भप्रवीवेशभूतम् कियद्भविष्यतम् वा स्यात् एकम् यजम् गर्वक्रीडोत्सहस्रभागिदेवता स्तम्भप्रवीवेश तत्र यत्र लोकांश्च कोषांश्चापो ब्रह्मजनाः विदो असच्च यत्र सच्चान्त स्तम्भम् तम् ब्रूहस्वेदेवता यत्र तमः पराक्रम्यभ्रतम् भारयत्युत्तरम् वृतम् च यत्र समाहिता वो ब्रह्म समाहेता स्तम्भन्तम् रोहिषदामस्वी देवदः यस्मिन् भूमिरन्तरिक्षम् योर्यस्मिन्नध्याहृता यत्राग्निश्चन्द्रमा जो वातम् पृष्ठम् जात्पीता स्तम्भन्तम् रोहितमस्वी देवदः यस्य त्रयश्चेवा सर्वे समाहेता सम्भन्तम् रोहि गतमस्वीदेवदः यत्र प्रथमाजायतः समयजुन्महे ये कर्षे यस्मिन्नाद्वितस्तम्भन्तम् रोहि गतमस्वीदेवदः यत्रावृतम् च मृत्युश्च पुरुषेधि समाहेते समुद्रोजस्य नाड्या पुरुषेधि समाहिता स्कम्भन्तम् रोहि गतमस्मि यस्य जदसः प्रतिशो नाज्ञा आस्तिष्ठन्त्यसा यज्ञो यत्रा क्रान्तस्तम्भन्तम् रोहि वस्मि देवनः ये पुरोधे ब्रह्मविदुस्ते वेदोः परमेष्ठिनम् यो वेदपरमेष्ठिरम् यश्च वेदप्रजापादिम् ज्येष्ठये ब्राह्मणम् विदुस्ते स्तम्भमानुसंवेदो यस्य शिरोः वैश्वारश्चक्षुरङ्गे रसो भवन् रङ्गाहारियस्य यातवस्कम्भन्तम् रोहिकतामस्ते देवतः यस्य ब्रह्म पुरमाहुर्युता विराजमोहमा यस्याः स्कम्भन्तम् रोहितमस्मि देवतः यस्मादृजोः अपादक्षण्यजुर्यस्मादपाकषन् सा माहारियश्च नो माहन्यसर्वाङ्गिरसोमुखम् सम्भन्धम् रोहितरमस्ति देवतः अनर्शाखान्वतिष्ठन्ते भजनाः विदुः उतोऽम् मन्ये शाखाः उपासते निद्राः नित्याश्च रुद्राश्च वसेवश्च समाहिताः भूतम् च यत्रैव्यम् च सर्वे लोकाः प्रतिष्ठिता कम्भन्तम् रोहितमस्मि देवतः यस्य त्रयस्त्रिंशद्देवानिधिम् दंशन्ति सर्वदा निधिन्दवर्जगोले द्वयम् देवाभिरक्षत यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते लोवेदान्विद्यात् प्रत्यक्षम् स ब्रह्मा वेदिता स्यात् बृहन्तो नाम ते देवालय सः परिजज्ञिरे एकम् तरङ्गम् स्कम्भस्याः पार्वगरा यत्र स्कम्भप्रजलयम् पुराणम् व्यवर्तयत् एकम् तरङ्गम् स्कम्भस्य पुराणवासंवेदुः यस्य त्रयस्त्रिंशद्देवानङ्गे गात्राविरे आम् मये त्रयस्त्रिंशद्देवानेके ब्रह्मविदोः विदुः हिरण्यगर्भम् परममानत्यञ्जनाविदुः स्तम्भस्तलग्ने प्रान्तद्धिरञ्जल्लोकेऽन्तरा स्तम्भे लोका स्तम्भे तप स्कम्भेऽधिनमाधीतम् स्तम्भत्वावेदप्रत्यक्षमिन्द्रे सर्वम् समाहीतम् इन्द्रे लोकादिन्द्रे तप इन्द्रेऽध्यमाहीतम् इन्द्रम् त्वा वेदप्रत्यक्षम् स्तम्भे सर्वम् प्रतिष्ठितम् रामनाम्ना लोहलि पुरालोर्याः पुरोषदाः यदः प्रथमम् बभूवस्मान्नान्यत्परमस्ति भूता यस्य भूमि प्लवान्तरिक्षमुतोदरम् देवं यश्चक्रे मूर्धानम् तस्मै ज्येष्ठाय ब्रह्मणे नमः यस्य मूर्यश्चक्षुश्चमाश्च पुरा नमः अग्नेयश्चक्रास्याम् तस्मै ज्येष्ठाय ब्रह्मणे नमः यस्य प्राणावानो चक्षुरङ्गे रसोऽभवन् द्विशोयश्चक्रे प्रज्ञानेस्तस्मै ज्येष्ठाय ब्रह्मणे नद्याः पृथिवी देये स्कम्भोधाधारोर्वान्तरिक्षम् स्तम्भोदाहाधारप्रयः सर्वे स्कम्भदिदम् सम्भव नमाविवेश यस्य मात्तपरसो जातो लोकान् सर्वान् समानसे सोमय्यश्चक्रे केवलम् तस्मै ज्येष्ठाय ब्रह्मणे न वा कथम् मातो मेलयति कथम् नमापः सत्यम् प्रेप्सम् कराचला माध्यक्षम् भुवनस्य मध्ये तव विक्रान्तम् सिलस्य पृष्ठे तस्मिन् क्षयन्ते लोके च देवावृक्षस्य सम्भः श्रोत्रे चक्षुषा यस्मै देवाः सदा वयम् प्रयच्छन् सम्भम् रोस्मै देवनः अपरतस्य हतन्तमो व्यावृत्तस्तवात्मनाः सर्वाणि तस्मिन् ज्योतियम् द्विदाित्रेण त्रयापत योगेः तथम् हिरण्यकम् तिष्ठन्त सवेय्य प्रजापतिः तन्त्रमेकेः युवरजीविरोः वेऽभ्याक्रामम् वय कष्टम् न दूषणम् काम्यातन्तोः स्थिरेः झट्टे अन्यानावृञ्जातेन गामातो अन्तम् तयोः रामपरृत्यन्तोरिफलविजाहारामि यतरापरस्तात् पुमाहारेणग्रेणत्रिपुमाहारेण द्विगाराभि उपतस्तभु इवम् सामाहारि चक्रस्तरे